गणेशपुराणं क्रीडाखण्डम् अध्यायं हण्ड्रेड् अण्ड् ट्वेन्टि वन् क उवाच वीरभद्रादिभिर्वीरैः सुकासीनं गणेश्वरम् आययोर्वेगदो देवा भीदाश्वासमाकुलाः न्यवेदयन्तवृत्तान्तं सिन्धुःसमागतः मेनिरेते पुनः प्राप्तं कालं संहर्तुमात्मनः तदो हर्षान्मयूरेशो रुरोह शिखिनं तदा आयुधानि चत्वारि प्रगृह्य च जगर्ज च नमस्कृत्य शिवं वेगाद्ययौ प्रद्योदयन् दिशः तदा शीकवचो वीरसहितो वाहिनीयुतः यावत्सपुरदो यादि सिन्धुं हन्तुं समुद्यतः तावत् यामि युद्धाय विघ्नराट तिष्ठत्सु बहुवीरेषु कथं युद्धाय यास्यसि पौरुषं पश्य सर्वेषां तस्मिन् क्षीणे ऋणं कुरु एवमुक्त्वा नमस्कृत्य ययौ युद्धाय षण्मुखः चतुरङ्गबलं गृह्य सिन्धुसेनामधावधीत् सोपितां न्यहनत्सेनां नाना शस्त्राय शरव्रजैः हन्मि सम्मुखदां व्रज एवं कोलफलोऽप्यासीद्वीराणां तत्र युध्यताम् ये दुर्विरा शस्त्रहदा शरजालगदासवः खिन्नाङ्गा भिन्नपादाश्च खिन्न मारयन्मिश्रिता वीरास्तान् परान् युद्धदुर्मदान् कोलाहलो महानासीत् स्वेडितैर्प्रेषितैरपि वाद्यध्वनिप्रदिध्वानैर्ब्रंहितैरथनेमिभिः असंबद्धमभूद्युद्धं सेनयोरुभयोरपि यथा प्रतिज्ञम् वीरास्ते निजघ्नोर्मंस्तकं मुखं नेत्रे बाहूदरं नाभिं पादौ गुल्फौ च जानुनी कोपि हस्तेन पादेन कोऽपि खड्गेन नाशयन् असिनाकेप्यरिगणानन्धकारे महत्यपि अस्तं व्यादेदिनकरे दृष्ट्वा पृष्ट्वा निजघ्निरे देवाञ्ज्ञात्वा सुराजघ्नुरितरानितरेपि च असृक्प्रवाहस्तत्रासीत् प्रथने तदा वहन्प्रेदा निषज्जीवा हुङ्कारेण च तान्परे बलान्निष्कासयामासु विशल्यांश्चक्रुरे यदा इतो न सेने पञ्चाहविरामयुद्धलम्बडे एवं पदाता सिन्धोऽस्ते कोडिशोधहदासुरैः दो गास्तद्गजानीकमसङ्ख्यं शस्त्रसंयुतं धिष्ठिदं सादिभिर्वीरैर्नानायुद्धविशारदैः वीरभद्रादयो जघ्नो गजसेनां दुरत्ययां केषाञ्चिन्मस्तका भिन्नाः केषाचिच्च कराद्विजाः अग्निशस्त्रधरैः केचित्पादिता वीरसंयुधाः वीरभद्रोदिवीर्येण गजे नैवाहनद्गजं पेदस्तुरष्टधा भिन्नावुभावपि तदा गजौ तद षानन निघ्न गजानी केरोचत वीरस्ततानतासा शक्तिया शरैरने कैसो नाशयुत हिरण्यगर्भोनेकवीरयुधांस्तानप्यपादयद भूत राजोऽपि शास्त्रैस्तान् गजान्नानाविधान्ने न्यपादयद्वीरयोक्तान्नारा चक्षतजीवितान् सिंहो भूत्वा पुष्पदन्दो धारयामास तान् गजान् नन्दीदुग्गजरूपेण बभञ्च तान् गजान् बहून् अन्यैश्च शरसङ्खातैः सर्वे ते विनिपादिताः कञ्चित् पुच्छे गृहीत्वे भ्रमयित्वा परोक्षिपद उभावपिलयम् यादौ दृढाकादेन चूर्णितौ तदारा युयुर्गजानी यु के निवासताजघ्नुस्ता सुरायुधरणे पतिदूर्चिदेव संले तद विधुरस्तान् वी वी वीरा नश्वा नोरुषा क्रोधेन देवान् ख्रन्ति स्म हयारूढा महासुराः सुरांस्तान् निन्युरन्तं ते शस्त्रास्त्रशरवृष्टिभिः षड्वीरा पुनरायाता श्रुत्वा देवान् हदान्युधि ततस्ते पुनराजघ्नुर्दैदेयानश्वसाधिनः चत्वारस्ते चतुर्दिक्षु प्रायुध्यन् बलवत्तरं ररक्षतुरुभौ सैन्यं स्वीयं देवगणैर्युदं मारयामासुरश्वां स्थानश्वस्तान्वीरसंयुधान् अयुध्यन् पादचार्येण निघ्नन्दोरिगणान् बहून् कोटिकोटिमितास्तत्र पे दुस्ते दुः शरार्दिताः नन्दीभृङ्गी हदा न श्वान् पतितान्वीक्ष्य साधिनः पादाकादेन तेनाशु पादयन् नन्दिकेश्वरः वीरभद्रोऽप्यसङ्ख्यादानश्वयो धान्यपादयत् हदेषु मुख्यवीरेषु चतुर्भिः सर्वतो दिशं कल्पान्त इव तत्रासि दैत्यानां रणकर्मणां तथक् केजित्सुरगणान् तदा महानासि हाहा महानासी दैत्यसैन सा दिषुवाखिला सीरास्ते मुदम यु वाद्यसु सर्ववाद्यु जगजुस्तुष्टुर्विभु जयः प्राप्तो मयूरेशप्रभावास्मरणान्न देहे ततः सिन्धुः समाकर्ण्य शरणामदवाक्यदः वृत्तान्तं हदसेनाय हस्त्यश्वरथसंयुधः अमात्यान् सर्ववीरांश्च प्रोवाच युद्धलालसः सिन्धुरुवाच ये ये गच्छन्ति योद्धा रस्तान् शृणोमि इदानीं यामितं हन्तुं गुणेशं च स्वयं बलाद क इत्युक्त्वा क्ष्वडितेन सौ च दिशोदश नादयामासत्रीं लोकान्ग्रसन् भूस्वर्गमण्डलं योजयित्वा क्षिपद्बाणमाकर्णकर्षणाजवाद सेनायां वीरभद्रादिपालिदायां महाबलैः निरीक्ष्य सर्ववीरान्सबाणं धनुषि सन्तधे तत्र मन्त्रेण सह शतजप्तेन दैत्यराट कृपीडयोनिःसह सहसा, सहसा तस्माज्जादो ददा कथां देवसेनां च पृथिवीं सवनां च सपर्वदाम् ततोपश्यन् सैनिकास्ते दह यमानान्कृशानुना पुरुषं वन्यसम्भोदं जडिलं दीप्ततेजसं विद्युग्जिह्वं करालास्यं गिलन्दं देवसैनिकान् षडानादयो भेदा दुद्रुवुस्ते दिशो दश यं यं सभक्षधिस्माजौ स स प्रापस्मरन्मुदा निजधाम मयूरेशमेव मत्ताखिला चमूः यदो यदो यादिसेना तावस्तद्वक्त्रसम्भवः तनूनः पादहत्येनां प्रलयाग्निरिवज्वलन् एवं सा वाग्निना मयूरेशस्य वाहिनी धूमान्धकारे महदि न प्राज्ञा यदकिञ्चन ततः सर्वे समाश्रिताः पृष्ठभागं समाश्रिताः त्राहित्राहीदिजल्पन्तो दग्धास्ते जाधवेदसा अनिवार्यमहास्त्रं तद्दृष्ट्वा देवो मयूरराट निस्तेजाश्चिन्तयामास भिदो लोके लखुत्वदः शिवप्रसादं चेत्कुर्यात्तदैवात्र जयो भवेत् इत्युक्त्वा परश्युं गृह्य मन्त्रयित्वा क्षिपन् बलाद् महसाजिदसूर्यः गर्जयन गगनम दिश यादन वैरी से जगत्को यथदी महे नेकुष सर्वूगोल किुमा सांबर पुषपुरुषेणस ्रमस्त्रेण वै तदा अयुध्यदां तदो जग्मुर्द्रष्टुं देवर्षयस्तदा दैत्यास्त्रम् भक्षितं तेन कृतान्तास्त्रेण सत्वरं ययौ सेनां च निर्दग्धुं ज्वाला मालिव दैत्यराचोपितं चोपि तं दृष्ट्वा बाणवृष्टिमवासृजद ये कस्मान्मन्द्रिताद् बाणादनन्ता निःसृता शराः देवसेनाचरास्तेषु मिमग्ना वेगशालिनः मयूरेश्यक्रोधवशान्नास्त्राणि तदा सृजद तैरस्त्रैर्दैत्यराजस्य निरस्यास्त्राणि सर्वशः अभक्ष यद्दैत्यशेनां सकालपुरुषः पुनः यदो यदः पलायन्दे सुरास्तत्र च चिन्ताक्रान्तस्ततो दैत्यकर्तव्यं नाभ्यपद्यत किं कर्तव्यं वगन्तव्यं क्वचस्थेयमचिन्तयद अस्तं व्यादे दिनकरे स्वधामप्रत्यपद्यद गच्छन् स्खलन्पदन् भूमौ नष्टकुण्डलभूषणः नगरम् प्राविशदसौ तदशम्भुरिवापरः गुप्तयेवावसत् क्वापि स्त्रीणां चैवनुजीविनां जगर्जसगणो देवो ज्ञात्वा तद्वृत्तमाशु सः तेन नादेन सहसा नादिदम्भुवनत्रयम् सञ्जहारकृतान्तास्त्रं मन्त्रविद्भुजगं यथा स्वनिवेशं जगामाशु मयूरेशो गणायर्वृताः इति श्रीगणेशपुराणे क्रीडाखण्डे एकविंशोत्तरशततमोऽध्यायः ॐ